नारायणीयं दशकम् 18 मीटर प्रहर्षिणि जातस्य ध्रुवकुल एव तुङ्गकीर्तेरङ्गस्य व्यजनिसुतः सवे न नाम तद्दोषव्यधितमधिशराजवर्यस्त्वत्पादे निहिदमना वनं गतोऽभूत पापोऽपिक्षितितलपालनाय वेनः पौराद्याैरुपनिः धः कठोरवीर्यः सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्यरौत्सीद सम्प्राप्ते हितकथनाय तापसौखे मत्तोऽन्यो भुवनपदिर्नः शनेति त्वन्निन्दवचनपरो मुनीश्वरैस्तैः शावाग्नौ शलभदशा मनायिवे नः तन्नाश्चात्कलजनभिरुकैर्मुनीन्द्रैस्तन्मात्रा चिरपरिरक्षिते तदंगे त्यक्दाखे परिमधिता परिमथिदा दधोरुदण्डादोर्दण्डे परिमथिते त्वमाविरासीः विख्यातः पृथुरिदितापसोपदिष्ठै सुदाभ्यै परिणुद भावि भूरि वीर्यः वेनार्त्याकबलितसम्पदं धरित्रीमाक्रान्तं निजधनुषा समामकार्षीः भूयस्तानि च कुलमुख्यवत्स युक्तायुर्देवाद्यायैः समुचितचारुभाजनेषु स्वच्छन्तं सुरभितनू मदुदुहस्त्वम् यजदिमखैस्त्वयित्रिधामन्नाराधे शततमवाजिमेधयागे स्पर्धालुशतमखयेत्यनीचवेषो हृत्वाश्वं तव तनयात् पराजितोऽभूत देवेन्द्रं मुहुरिदिवाजिनं हरन्दम् वह्नौ तं मुनिवरमण्डले रुंधाने रुन्धाने कमलभवे क्रतो समाप्तौ साक्षात्त्वं मधुरिपुमैक्षधास्वयं स्वं तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्देविहितपथकदापि देव सत्रस्थं मुनिवहम् िदानिशंसन् नैक्षिष्टा सनकमुखान् मुनीन् पुरस्ताद विज्ञानं सनकमुखोदिदं दधा न स्वात्मानं स्वयमगमो वनान्तसेवी तत्तादृक् पृथुवपुरीश सत्वरं मे प्रशमयवादगेहवासिन् ॐ सर्वत्र गो नाम गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द